विश्वे शयित्वा तवेषु तुञ्जते समानमेकम् मृषमण्यवः पृथक् त्वस्तदिश्यवः पृथक् तदन्त्वानावम् न वर्षिणम् शोषस्य धुरि धीमहि इन्द्रम् न यज्ञैः शिरयन्त वित्त्वा ततस्त्रमिथुना वश्च व्रजस्य सातागम् यस्य निःसृजः सक्षम् द इन्द्रनिःसृजाः यद्गम्यन्दा त्वाजरा स्वार्यन्दासमोहर्षि आविष्करि क्षदृषणम् स चाभुवम् वज्रमिन्द्रस चाभुवम् कुतो नो अस्याविषसो जुषेदह्या आर्कस्य हमेव स्पर्शीमभिः यदिन्द्राहन्द्र वे वृथो वृषाः वक्तिम् चिकेतसि आमे अस्य मेधसो रवीयसो मन्मश्रुधी नवीरसः तुभ्ये दिमासवनाशो रविस्मा तुभ्यम् ब्रह्माभि तन्द्रविरहम् यो विश्वधानासि नो चिन्नुदयमन्यमानश्च दश्मो दश्नुवन्ति महिमानमुग्रा न वीर्य इन्द्रतेनाथः प्रभो महेमहिवृधे भरद्वम् व्रजेतसे सुप्रसूपतिम् क्रीडुद्भम् विशः यदा वज्रम् हिरण्य विदथा रथम् हरियमस्य महतो विसूरिभिः आतिष्ठति मघवानश्रुत इन्द्रमाजस्य दीर्घश्रवनस्पतिः स्वट्यज्योत्यामिन्द्रोणि हरे ताभिः प्रश्नुते अपरवेति सुक्षयम् श्रुतेवसुद्धो नोति वातो यो वाचायवाचोध्रवाः च पुरुसहस्रादे वाचखा तत्तलिरस्य इन्द्रसंश्व ृम्वाचाराम् वदेशैःसराः आदूर इन्द्रोष्वश्वे ऋषु भृणुसहस्रे ऋतुवेमघ निष्वापयामि चोदृषा सस्तामबुध्यमाने आदूर इन्द्रोष्वश्वे ऋषु भृणुसहस्रे ऋतुवेमघ स्वसन्त्व इन्द्रोष्ठश्रेण सुप्रयोदः श्रे षुगुवेन्द्रयर्धर्मम् पापया भूया आतो न इन्द्रशंसोष्वश्रेण सुप्रयोदः श्रे ऋगुवे पदाः त्रिकुण्डाच्च दूरम् मातो वदादधि इन्द्रजं धरगोष्प विश्व ऋषुभ्रजोदः त्रय ऋगुरेवख सर्वम् वरे क्रोदङ्ग्रं धोष्प ऋषुभ्ररोतः त्रयः ऋगुर्वेवजस्य शातागम्यश्च निःसृजः सक्षन्तरेन्द्र निसृजाः यद्गव्यन्द आयन्ता समूहसि आयुष्कलिकर्दृषणम् स च भुवम् वज्रविन्द्र च भुवन् विदुष्टे अस्य वीर्यस्य पौरवः पुरोतीरः सासहारः शासस्तमिन्द्रमत्यवयजुम् शवसत्पते महीवृष्टा पृथिवी विवा अपोमम् अव आदित्ये अस्य वीर्यस्य चक्रिन्मदे शोषम् यदा यदापीठ चक्रकारे ये अन्यान्यान्नद्यम् सनिष्ठतः श्रवस्यन्तः सनिष्टदा यस्येन्द्रः पुताः दृढान् न्योताः अस्यावृढ प्रास्य दृढा अरुत्रिशोकश्च तेवार करस्ते मदरिन्द्रम् चोद्भ्योग्रोविधा वा गाहो अर्वागुपापदेशात्मा शक्यगोपानम् नाथो अन्धे करोत्युम् न विन्दत्वाजाकार मित्रो न सत्यपौरुगाजभृत्या अन्वैः मनिषाः ो अर्थम् न पारय्यस्य कामम् जगारे भगवन् गिरश्च वेदये तु विजातपूर्वेर्नर इन्द्र प्रदेशिक्षन्मैः मात्रे ऋते सुवेदय इन्द्रपूर्वेर्जौर्मद्मरा पृथिवी काव्येन वरायते जगवन्द सुता समात्मभवन् दु पीतये बभूरि आ बन्धोः अस्माभिजन्नमत्रमिन्द्रपूर्णम् सभि सत्याः समावृथे वरे अह्ना पृथिव्याभिक्रत्वा रजः पुंसेश्च व्याहर इन्द्रपृतरास्मो ज आस्मह्यजन्द्रे सख्याय पूर्वे आस्मारजन्न प्रतासुतिष्ठय भवद्रजासुमत्या चोदयासे आहत्यो जातु मघवामृजेदे भवन् त्वस्य हर य उवादः तस्मा इदम् धः सुषुमा सुदक्ष विहाभि कारते गृणानः अवश्यशूराध्वोनाङ्गेऽस्मिन् अद्य समाने मन्दध्यैः शंसात्युक्थमुशलेन मेधास्ति गतुषे असुनियाय कविर्न निण्यम् विदधाः विसाधम् मृषा यत्सेकम् पिपिपानो अर्चात् निरैक्षायी जगत्सप्तकारो लम्बाः चक्रुमलुराः गृह्णन्ताः स्वार्यद् मन कैरमहिरुर्यद्धमस्तो अन्धातमाम् सिद्धीता विचक्षे नृभ्यश्चकार नृतमभिष्टौ आप बवा क्षेमीत उभाप्रौरो अतचिद महिमा न विद विश्वाभ बभूव विश्वाह श्रोर निया नपोदीर चीभिर्मे अजंगा अपौरत्रम् अभ्रिवाम् सम्पराहन्प्रावत्ते वज्रम् पृथि सदेताः प्रान्नांसि सौन्द्रियान्यैरापतिर्भवम् च वरदासूरकृष्णा अपोयद्रिम् पुरुहादर्दराविर्भोवत्सरमापूर्यन्ते सर्वेतावाजर मादर्शि भूरिम् गोत्रार्जन्नङ्गे लाभिग्रणानः तर्दोः गायसुते सजाः गुरुः दारे षरङ्गवेन शालिरे न गावसु निरामते दानम् वायस्य गोमतः यस्येव वर्षभद्गिराः कुवित्सस्य प्रहिवचनम् गोमन्तम् दस्युहागमद् क्षतीभिरवद् इन्द्रकृतम् न आभारिता पुत्रेभ्योऽयथा शिक्षाणोऽस्मिम् गुरुहोदयमादिजीवाज्योतिरशीरहि मानो अज्ञाता वृजनागुराध्यो माधीवासो अवक्रमः त्वया वयम् प्रवदश्चीरभवतीशूरतरावसि इन्द्रज्येष्ठम् राभरभोजिष्ठम् पपूरिश्रवाः एरेमे चित्रवज्रहस्त रोदसि ओभेषु शि प्रप्राः त्वामुक्रमबाधय चर्षणे सहम् वाजम् देवेषु हूमहे विश्वासुरोः पिथुरापि ददाव सौमित्रान्सुरहान् यद्यापारन्द्रते शतम् शतम् भूमि रुदश रत्वा वज्रम् सहस्रम् सूर्या अर्वजातभष्ट रोदरसि तापप्राधवहिला वृष्ट्याः वृषन्निष्टाः चविष्टसमासा अस्मान् गोपादिम्बदेव चित्राभिरोतिभिः यदिन्द्रयातस्तवगमीषीय स्तोताविन्द्रधिशय चापसो नः पाय रासीय शिक्षयमिन्द्रयते दिवे देवे राया न हि त्वदन्यन्माघवन्नाप्यम् वस्योऽस्ति पिता जडा इन्द्रत्रिधातु शरणम्मनोहम् स्वस्तिमत् क्षत्रयक्षमगवद्भश्च या वदिद्युमेभ्यः एकम् इन्द्रायाभिचित्रभालो सुतामे त्वायवाः अन्वेस्तराः पूतासाः इन्द्रायाभिषेशितो विप्रजोदः सुतावरतः उभ ब्रह्माणि वागताः इन्द्रायाभितो जात उभ ब्रह्माणि हरिवः तुदेश्वरश्चराः माचेदन्यद्भिषम् सतरसखा यो मादेशन्यत इन्द्रदृष्टो ता वृषणम् स चाः सुते मुहुरुक्था च संसदा अवक्रक्षिणम् वृषभम् जाजुदङ्गान्न चर्षणी सहम् विद्वेषणम् सम्पदनो भयङ्करम् भजाविणम् यच्चिद्धित्वा जराः जिवेहवन्त ऊतये अस्माकम् ब्रह्मेदमिन्द्रभूतु श्रेहाविश्वाहाजवर्धनम् विधत्तोर्यन्ते मघवन् विपश्चितोर्यो विपो ज उपक्रमस्तपुरुपमाभरवाजम् नेदिष्टभूत ब्रह्मणा ते ब्रह्म युजाहारिवग्मिहरिषासवाद आशु शिरम् रथम् सुखमिन्द्रादिकृष्णम् प्रजालम् विद्वा अध्वर्यरुणम् दुग्धवंशुम् जुघोतरवृषभाजक्षितेना गौराद्वयमिन्दो विश्वाहेद्यापमिच्छन् यद्भिष प्रतिविचारन्वम् दिवे देवेति विदस्य पक्षि उदरमनसाजुषा न उशिन्दस्थितान् पाहि सोमार् यज्ञानम् बहसेव देवे वश्च कर्था यद्योधयान् साक्षाः महतान् बाहुभिर्वत इन्द्राभिरुद्ध्यास्त त्वयादिं शौ शवसञ्जय ेन्द्रश्च वोचम् प्रथमकृतानि प्रणोदमगमाया जगार यदेतदेहेरजयुक्तमाया अथ केवल सोमो अस्य तदेतम् विश्वमभितः परं यः आम्यक्पश्चिदक्षशासूर्यस्य धवामसि गोपतिरेक इन्द्रभक्षे महीते प्रजातस्य वस्वाः बृहस्पते युगन्दश्च वस्वस्य शाचे उत पार्थिवस्य दत्तम् लयम् स्तोभते केरलेः चियम् पातस्वक्तिभिः सदा नः यस्तम्भयसहसा विज्मान् तान् बृहस्पतिस्पृषध स्थौरवेण दुरेत यः बृहस्पते अभिजेत ततस्त्रे बृहन्तम् सुप्रवदभ्र पूर्वम् बृहस्पते रक्षयता तस्य योरिम् बृहस्पतेजापरमापरावदारतस्पृशोरे तुभ्यम् खातावताद्रि दुग्धा बद्धश्चातन्त्रभितो विक्षम् बृहस्पतिप्रथमम् जालयवानो महो ज्योतिषः परमे व्यो मन्न सप्तास्यस्तु विधादो रवेण विधत्तरस्मिन ताहंसी ससृष्टु भासत्वगणेन वलम् रोरोजफलिगम् रवेण बृहस्पति भावशतेरुदाय एवापित्रे विश्वदेवाचे यज्ञेरविद्भिः बृहस्पते सुप्रजाभेदवन्तो वयम् स्याः भगवतरयोजेण अस्तेवतसुप्रतल्लाजय सूचनम् निर्मस्तोमवस्मै राजाभिप्रास्तरतरवाच पर्योदयाः मयजयतः सोम इन्द्रम् दोहे न शिक्षासखायम् प्रबोधजयतम् कोशम् न पूर्णम् वसूनान्यष्टमाच्यायमह जयाजयशूरमम् किमम् गत्वारमम् भोज महाष्ये हिमायशयम् त्वा शृणोमि अप्नस्वति मम अधीरस्तु शक्रवसु इयम्भयामिन्द्राभारालः त्यस्मिन् न विक्जन्ते समीपे अत्रायुजम् कुणुते युष्मान्नासम्वता सख्यम् नष्टे शूराः धन्द्रम् बाहुलम् दे यास्मै ते सोमाम् आसुनोति प्रयस्मार तस्मै शत्रूः श्रुतकान् प्रातरम् नो निःस्पष्टातम् युवदेहन्ते यस्मिन् मजम् दधिवाशंसमिन्द्रेजः शिष्यमस्मे आराक्षत्सम्भयदामस्य शत्रुम् यस्मै योग्यम् नाजन्याहनमन्ता आराक्षत्रुमपबाधस्वदूरमु यः शम्भः पुरुहूतजय अयम् तवृषसा आत्मम् ती सोमा बहुलान्ता स इन्द्रम् नाशधामानम् रघवानियम् सन्निधिम् वतेवाहति भूरि उत प्रभवतिवारयति कृतमेव स्वग्भी विजीनोति काले यो देवका मोनधनम् मृद्धिनवित्तम् राजस्रेजति स्वधाभिः गोभिश्वरे मामादिम् दुरे वाञ्जलेण वा विश्वे वयम् राजा सुप्रथमाधरान्यष्टासो व्रज रीभृत्येव बृहस्पतिम् नः परे पातु पश्चादुतोत्तरस्मादरादघायोः इन्द्रः पुरस्तादुतमध्यतो नः सखा सतिभ्यो मरीय यो अग्रिभिः प्राथपजालिता वा बृहस्पतीराङ्ग्जलः सौ हविष्माहारिपरः प्राधर्म सत्पितारोदयशीरी जनाहारीर्य तुलोकम् बृहस्पतिर्देवहोचार ब्रह्मवतारिपरादर्दरे देयम् शत्रो रवित्रान् मृत्सुसाहन् बृहस्पतिः समाजजगपदो निमहो प्रजाङ्गो मातो देवदेशः अवशिषः सन् स्वादेवो बृहस्पतिरहन्त्यत्रमर्त्यैः इमाम् ह्रियम् सप्तशेषणेयम् पितारप्रजाताम् मृहदेवाविन्द्रीयम् सृजनगर्ति स्वजम् जास्य उक्षमिन्द्राहार संसन्न शंसन्त्याः दिवस्पुत्रासो असूरस्य वीराः विप्रम् पदमङ्गेरसोदधा राजज्ञस्य धाम प्रथमम् मानन्ता हंसैरीभावरश्व बृहस्पतिरभिकरेक्रदर्गा उत प्रास्तौ दुच्छ विद्वाम् अगारत् अवोपाभ्याम् परलेकयागागुभातिष्ठम् देवदेव तस्य सेतौ बृहस्पतिस्तम सज्ज्योतिरिच्छन्दार्भिः बिभिर्ज्यापुरम् शयचैववाचे निःस्त्रीणि साकमोदेन कृन्तत् बृहस्पतिर्जतम् सूर्यम् कामर्कम् वेवेदस्तनजम् निवद्योः इन्दोः परम् रक्षितारम् दुभानाम् गरेणेवरमि च कर्तारवेण स्वेदाहम् जिह्राशिरमिच्छमानोरोदर्पणिमागामुष्णात् सैयम् सत्येभिः सखेभिश्चिद्भिर्बोधायम् विधान सैर दर्दः ब्रह्माणस्पतिर्विषभिहैर्ब्रह्मस्वेदेवभिर्द्रवीणम् व्यानट प्रेभक्त्येन मनसा गोपातिङ्गायी यानाश इषणयन्त देभिः बृहस्पतिम् मितो आवद्यनभिरुधि स्त्रियाः अभृजतस्मदिग्भिः तम् अर्धयन्त मतिभिः शिवाभिः सिंहनीहनागतम् सतस्थे बृहस्पतिम् मृषणम् शूवदातौ भरे भवे यदा वाजवस नोपरमाद्या मनुक्षदुत्तरा शर्दा बृहस्पतिम् विषाणम् वर्धयम् तोदानाशम् तो बिभ्रतो ज्योतिरासा सत्यावाशिषम् कृणुतावयोधे केनचिद्यपरथस्वभिरवैः पपश्चामृधो अपभवन्तश्वात्त श्रुणुतम् विश्वमिन्मे इन्द्रोः बह्नामहरोनर्मुदस्य अहम् न हिमरीणात् सप्तसिन्धोऽः देवैर्यापृथिवे प्रावदन्नः अभिप्रगोपादिम् गिरेन्द्रमर्च यथा विदे सोनम् सत्यस्य सत्पादिम् आह यः सृर्गिरेनो हेदधीपरिषे इन्द्रा जगाद आशिरम् दु दुःखे वज्रिणे वधौ यत्सी मपः परे विगदे उद्ब्रघ्नस्थव्यशिष्टवम् गृहमिन्द्रश्च जन्म हि मध्वप्ये त्वा स चैव हित्रिस्तप्तसख्युः परे अर्चतप्रार्चतप्रिय अवस्वरातिग्रो गोधापरिसरिष्वरत् पिङ्गा परिचरिष्कर इन्द्राद ब्रह्मोऽतम् आयत्पदम् चेऽन्यस्तु दुधाः अवस्फुरः अवस्फुरम् गायत स्वाम इन्द्राय मातरवे अपादिन्द्रो अपादग्निर्विष्मेः देवा आवत्सत वरुण यदि रक्षयत्तमापोः अभ्यनौषधरिव सुदेवो अतिवरुणयश्च ते सप्त सिन्धर्वः अनुक्षरम् द्विकाकुलम् सौर्म्यम् सुशीरामीव यो विषती नुक्ता उपदाशुरे तक्को नेतादति द्वपूर्वपः अमुच्यता अतीवोचक्रवो रत इन्द्रो विश्वा जिग्निषाः विरत्कलीलोधर्मम् परो गिरा अर्भको न को बारकोधितिष्ठन्नवम् रथम् स्वभक्षम् महिषम् मृगम् पित्रे मात्रे भुकृतम् आदोषिप्रदम् पदे रथम् तिष्ठा हिरङ्गजम् अधद्युक्षम् स चिसहस्रपादमरुषम् सिकामादेहसम् कङ्घे मित्था निदस्य अनुधीतम् यदेतर आवर्तयम् निवे अनुप्रत्नस्योगसप्रियमेधासलेखा पूर्वा मनुप्रजातिम् रक्तपरिशिषो हितप्रायधा यो राजा दर्शनीनाम् यातारथेभेन ध्रीगुः विश्वासाम् दरुतावृतानानाम् ज्येष्ठो जा वृत्राणे इन्द्रम् तम् शृम्भौरुहम् मल्लवासे यस्य हस्ताय वज्रप्रतीधादि महादिवेन सूर्याः न कष्टम् कर्म नालशत्यश्चकार इन्द्रन्न जज्ञे विश्वगोर्त्र मृभ्रमधिष्टम् धृष्णोजम् अशार्ह उग्रम् द्रतलासता वयम् यस्मिन् महेरोदन्द्रजाः सन्धे नोजाय मान अनेन वर्त्या वक्षामो अधो नोः यद्यावरिन्द्रते शतम् शतम् भूमिः सु दत्त्वा वज्रेन् सहस्रम् सूर्य अर्वजातमस्करोदति आपप्राथमहिना वृष्ण्याः वृषन् विश्वाः शविष्ठश अस्मा चित्राभिरोतिभिः उक्त्वा मन्दन्तो स्तोराधो अद्रिवः पवब्रह्मद्विषोदिः पदापणेन्द्रोटिपामहात्वा कश्चन प्रदी त्वमीषिषे सुतानामिन्द्र त्वमसूताराम् त्वम् राजा जनाम् खजन् दे अवश्य इन्द्रम् जातमुपासते भेजारासः सुवीर्यम् त्वमिन्द्रबलादधि सहसौ जातमोज सः त्वम् मृषम् पृषे दधि त्वमिन्द्रासि वृत्रहाव्या आन्तरिक्षपदिरः उद्यावस्त्व प्रापोजयसा त्वविन्द सजोज समर्कम् बिभर्षिबा मद्यम् शिजा नवो जयसा त्वविन्द विभूरति विश्वा जातान्यो जयसा स विश्वाभुव आभावः आयात्विन्द स्वपा निर्मदा निरोधर्मणा प्रत्यक्षाणातिविश्वासः सपारायण भरता वृष्टे सुष्टा मारथः सुयमाहरीते गण्यक्षय वज्रो नृपते गमस्तौ शीभम् राजन् सुप्रजाला शर्वान् प्रत्यक्ष संवृष वम् सत्यसुष्मेवत्रा समादो वहन्तु देवापतिन्द्रोण साचंस चेत ऊर्जस्कम्भम् धरुण आवृषायसे ओजः कृष्ण सङ्गृभाय ते अभ्यसौ कथाः लेतिपादाः विनोर्थे गमन्नस्मैवसोऽन्याहि संशेषम् स्वाशिषम् वरमायाहि सो मी शिषेस्मिन् आसत्सि परिशिष्यदाभिश्च पृथक् प्रायम् बध मा देवहूतयोगणस्या निष्टा न एषे गुरुयज्ञियाम् नावमारुहमेपतेऽन्यशन्त के पायः एवैव पाकमारे सन्तुतोऽढ्यो स्वादेशा दुर्युज आयुषुद्रे इच्छाये प्रागुपाले सन्ति दावने पुरूणि यत्र वयुरा विभोजना गिरीम् रज्राम् व्यजमानामधारमुः क्रन्ददन्तरिक्षाणि कोपयु समीरे धिकरे विष्णभारति विष्णः पीत्वा मदमुक्तादीशंसति इमम् बिभर्मि सुतम् ते अङ्कुशम् येन मघवम् च बालुजाः अस्मिन् सुते सवले अस्तोक्यम् सुत इष्टौ भगवन् बोध्याभागः गोभिष्टरे वामाजम् दुरे वां यमे न क्षुदम् पुरुहूद विश्वा अयम् राजमाधान्नस्माकेन भृजने राजेन बृहस्परन्न परे पातु पश्चादुतोत्तरस्मादधराधायाः पुरस्ता सुरोणोतु विष्णो नासुतम् यथा वाचत् श्रीयम् ममादहिषम कर्तवे महाबुणुम् सैयम् हस्तद्देवो देवम् सत्यमिन्दम् सत्यजिन्दुः पुरोरथमिन्द्रः वर्तत अभिके चिदलोकर्गसङ्गे समत्सोरुत्रयः अस्माकम् मोधि चोदिता नभन्तामन्यकेशाहम् यागाधिधम् वरसो त्वम् बिन्दो नवासृजो धरातो अहम् महिम् अशत्रुलिन्दजज्ञि विश्वम् पुष्यशिवा यन्तम् तापरिष्मजामहे नभन्तामन्यकेशाहम् यागाधिधम् वरसु शंतनो विशु विश्वाहार्यो न शन्तनोऽधियाः हस्ता इन्द्रदिखाम् रातिर्दधिर्वसुलभन्तामन्यसु तीव्रस्याभिवायसो अस्य पाहारि सर्वरथा इहमुन्द्रमा त्वानासो अन्ये हीरमन्तुभ्य विमे सुतासाः तुभ्यम् सुतास्तुभ्यपुषो त्वा सस्ताङ्गिरस्पात्यायन्ति इन्द्रे मद्य समानञ्जुषाणा विश्वस्य विद्वा इह वा हि सोमम् यवोषया मनसा सोमवस्मै सर्वहृदा देवता मः सुनोति नया इन्द्र तस्य वराः ददाति प्रशस्तविच्चारोरस्मै अनुस्पष्टा भवत्येषो अस्त्येषो अस्मै देवान् न शुनोदि सोमम् निररत्नौ मघवातम् दे दधाति ब्रह्मद्यशोः हन्त्यराः अनुशिष्टः अश्वायन्तोः गम्यन्तोः वाजयन्तोः वा महेत्वापरगन्त आभूषम् तस्ते सुमहतौ न वायाम् मयमिन् ीवनाजकवज्ञातलक्ष्मासुतराहक्ष्मात् ग्राहिजग्राह यद्येतदेन्दस्याः well, इन्द्राग्ने प्रमो मुक्तमेरम् यदि क्षिताय यदि वापरेहेतो यदि मृत्योरन्ति कन्निः तदेव तमाहाराभितेरुपस्थादस्पाः शिरमेवम् शतधाहारदाय सहस्राक्षेण शतमीर्येण शतायुषाः हविषाः शमेणम् इन्द्रो यथैहीनम् शरतो न जाप्यति विश्वस्य तुतस्य पारम् शतञ्जीहेम शरतोर्धयमानशतम् हे हेमन्तान् शतमोपसन्तान शतम् नरिन्दो अग्निः समिता बृहस्पतिश्चतायुषाः हविषाः शमेलम् आहार्षमवेदन्त्वा पुनरागाः पुनर्नवः सर्वाङ्गहर्वम् ते चक्षुः सर्ववायुश्च ते विदम् ब्रह्मणः अग्निर्स्ताम् विदा नो रक्षोः वाविदः अमी वा यस्ते गर्भम् दुर्नामायोनिपाशये यस्ते अद्विष्टम् ब्रह्मणा सहरिष्टम् यादमनीषत् यस्ते हन्ति पदयम् तम् निषत्तुम् निःसरी जातम् यस्ते निखाहम् सदितमितोलाः सजावति यस्त ऊरुत्यन्तरादम्पतिषदे योनिम् यो अन्तरालेहितमितोलाः सजावति यस्त्वा प्रातापतिर्भूत्वाो भूत्वा निपद्यते प्रजायस्ते जिघांसजितनिलोनः झजामति यस्त्वा स्वप्रेण समासामोहयित्वा निपद्यते प्रजायस्ते जिघांसजितमिलोनः सजामति अक्षीभ्याम् तेनासेकाभ्याम् खण्डाभ्याम् च मूकादधि यक्ष्मम् शेषण्यम् मस्तिष्का जह्वाया विवृहामिते एवाभ्यस्तवृष्ट्याभ्यैकशाभ्यो नोक्त्या यक्ष्मम् दोषण्या आमंसाभ्याम् बाहुभ्याम् विवृहामिते हृदयत्रे परिक्तो नो हरेक्ष्मा पार्वाभ्या यक्ष्मदर्ष्णाभ्याम् लेन्धो यक्षस्ते विवेहामसि आन्त्रेभ्यस्ते गुलाहाभ्यो वनिष्ठोरुदारधि यक्ष्मम् कक्षिभ्याः प्लाहेन्नाभ्या विरेहामिते ऊरुभ्याम् ते अष्ठीवद्भ्याम् पार्ष्णिभ्याम् प्रबादाभ्याम् यक्ष्मम् भसद्याम् श्रोणिभ्याम् भासदम् भंसो विवृहामिते अस्थिभ्यस्ते मज्जभ्यस्तावभ्यो धमनिभ्यः यक्ष्मम् पाणिभ्यः मङ्गुलिभ्यो नखेभ्यो विवृहामिते अङ्गे अङ्गे लोम्नीलोम्नि यस्ते पर्वाणि पर्वणि यक्मम् तजस्यन्ते वयम् कश्च पश्यमी बर्हेण विष्पन्तरत्याः परमेण विधाश्च्योति मेहवज्रिलम् तस्माद्य मनासुतम् भरागूनम् भूतशत श्रुते मृगश्चिरस्य वारण ो रामधिरामजुनेषु भूषति श्रेमन्नस्तोमम् दुजुषाण आगहेन्द्रचित्रया धिया करोन्मा आश्चात् तस्य नास्ति मौंस्यम् केनोकम् सुमरे शुश्रुवेषः परिवृत्रयः आलिभ्य हवाहा महे ृत्रेष्न्द्रहस्ताङ्गाष्ठा स्वर्वादः सत्त्वन्नश्चित्रवज्रहस्तधृष्टामहस्तवादोद्रिवः गामश्वम् व्रथ्यमिन्द्रसङ्गिरत्रावाजन्न जिग्गिभे अभि त्वाः पूर्वपितरस्तो मेऽभिलायवाः समीचीनाधर्भवस्तमस्तद्रा क्रीडन्त पूर्व्यम् अस्यैरिन्द्रो वावृधे कृष्णम् शवोपदे सुतस्य विष्णवि अद्यतमश्च महिमानमायवो दृष्टुवन्ति पूर्वथा अधा हीन्द्रैर्वण उपत्वा कामाहन्महः सृष्महे बुदेव इन्द्र बुधभिः त्वा यव्याभिर्वर्धन्ति तिशूरब्रह्माणि वावृत्वाम्भम् चिद्रिमो दिमे दीवे युञ्जन्ति हैस्य गातदो रौरथ पुरोयुगे इन्द्रमहावचोयिता अग्निन्दुतम् ऋणी महे होतारम् विश्ववेदसम् अस्य यज्ञस्य सुकृतम् अग्निमग्निम्भवेमभिस्तदाहवन्तनिष्पतिम् हव्यमहम् पुरुप्रियम् अग्ने देवा इदावहजज्ञानोरिक्तपरिहि पशिभोदा नैक्याः ईळेऽन्यानवस्तिरस्तमाहम् निदर्शतः स वर्गेभ्यते पृषाः पृषो अग्निस्त विध्यते स्तो न देवाहरः तम हविष्पं तीन वृषाण्वा वजस्त मे धीमहे गाथा तम बृहति अग्निष्पावास गाथाश्रीर सोच्निराजे पूर्वे श्रुतु छह अग्नायां ऋणीमहे आत्त्वावदत्त प्रजाताहविष्मते जिष्ठम् बलिभिसदे अच्छाहित्वा सहस्रोरो पूर्जोल्पातम् हृतगे शमीमहे ज्ञे यज्ञेषु पूर्व्याम् विभाुत्वा पुरोहतो गिरो वर्धम् तु यामव पावकवर्णाश्युचयो विपश्चितोभिस्तो महीररोषद अयम् सहस्रकृषिभिः सहस्रतः समुद्रजीवपप्रथे सत्यस्तो हस्त्यमहिमागृश भो यज्ञेषु विप्र राज्ये आनो विश्वः सुगम्य इन्दः स मत्सु प्रथमो राधा सा मत्स्यसे तु विद्युम्नस्य युज्यावृणी महे पुत्रस्य शवसो महत्वः अशस्ति च निता सुरसिद्धम् अरुते सूक्ष्मम् तुलयन्तमे य तुक्षोणे शिषुनातरा विश्वास्ते स्पृथस्तमन्य मे वृत्तम् इतमुदेव अजरम् प्रहेतारमप्रहितम् आशुञेतारम्भेतारम् रथेतरमूत्तम् तु व्यावहम् यो राजा दर्शनीनाम् याथा रथे रथीगुः विश्वासाम् तरुता प्रदानानाम् ज्येष्ठो यो वृत्रहृणे इन्द्रम् तम् शुम्भवृहम् मन्न वरसे यस्य द्विता हस्ताय वज्रप्रतीधारिदर्श महोदिवेन सूर्याः तात्यदिन्द्रियम् बृहत्तव सुष्ममुदग्रतुम् वज्रम् विजातिभिषणामरेण्यम् ताद्यौरिन्द्रपौंजम् पृथिवीवर्धनिश्रवाः त्वामापर्वदासश्च हिन्विरे त्वाम् विष्णर्बृहङ्क्षयोः मित्रो ग्रीणाति वरुणः म् सर्भो मदत्यनुमारोतम् समस्य मन्यमे विशो विश्वाः नमन्तकृष्टजाः समुद्रायेव सिन्धवः ओजस्तदस्य दित्युष उभे यत् समवर्णयत् इन्द्रश्चर्मे विचिद्रदस्य दोधतो सलिदाः समुभारेषु ज्येष्ठम् यतो यज्ञमुग्लस्पेषः सद्यो जज्ञानो निपीडाति शत्रोरजने सम्मतन्ति विश्वभूमाः पादारश्च भोरियोगाश्चत्रुर्वासाय भियसम् दधाति अन्यश्चव्यनश्च सत्पन्ते रवन्त प्रभृतामदेषु त्वे क्रतुमपि भुञ्जन्ति भूरि ते तृर्भवन्त्युमाः स्वादो विप्राः पोलीयश्चिन् स्थिरवादृष्टमा त्वया वयम् सः सद्महेरणेषु प्रपश्यन्तो युधेन्याहारि भूरि चोदयाविधायुधावचोभिस्पन्देराब्रह्मणः मयासिक्ष्मिन्ना विधा आस्थाः वयतमातरम् जिघत्रुमद इन्वतखर्वणि भूरि आदर्शति शवसा भोक्षति प्रतिमानम् इमा ब्रह्म बृहद्देव कृणवलिन्द्राय शोषमग्रियस्पर्शाः महोगोत्रस्य क्षयति स्मराजातुरश्चिर्विश्वमर्मदत्तमस्मा एव महान् बृहद् दे गो अधर्वा वहो चत्वान्तो मातरिभ्रे यद्रे हिन्वन्ति चैदेशवसावर्धयन्ति चित्रम् देवानाम् केतुरली खण्ड्योतिष्पान् प्रतिशूर्यबुद्ध्यन् देवाकरोति चुम्ने स्तमाम् श्रीविश्वादारे तुलितारि शुक्रः चित्रम् देवानामुदयखादनीकम् चक्रुर्मित्रस्य वरुणस्याग्नेः आप्राप्य पृथिवी अन्तरिक्षम् सूर्य आत्मा जगतस्तस्तुढश्च सूर्यो देवी मुडसम् रोच मानाम् मर्योदयोषामभ्येति पश्चात् याने वय युगा मित प्रतिभाद्रा भाद्रा